रघुपति राघव राजा राम पतित पावन सीता राघुपति राघव राजा राम पतित पावन सीता ईश्वर अल्ला तेरे कोसमती दे भगवान् ईश्वर सीता रघुपति राघव राजा राम पतित पावन सीताराम। राम राघव राजा राम पतित पावन सीता ईश्वर अल्ला तेरे नाम। सबको गोसमति देव भगवान् ईश्वर अल्ला ईश्वर अल्ला तेरे नाम सबको दे भगवान राम राम जय राजा राम राम राम जय सीता राम राम राम जय राजा राम राम राम जय सीता Sí, ी